गणेशपुराणम् उपासनाखण्डम् अध्यायं फार्टिफैव् मुनिरुवाच ततः प्रसन्ने विग्नेशे देवेशे विघ्नहारिणि वरान् दित्सति शर्वाय वव्रे सदाशिवः वाचा गणेशभजनं श्रुत्वा शिवो वाक्यमधा ब्रवीद स्मृत्वा गजाननं तं दुःस्वस्वरूपं वरप्रदम् शिव उवाच दशापि नेत्राणि ममाद्य धन्यान्यो ने भुजाः पूजनतस्तवाद्य तवा नदे पञ्चशिरांसि धन्यान्यधस्तु देः पञ्चमुखानि देव पृथ्वीजलं वायुरथो दिशश्च तेजश्च कालः कलनात्मकोऽपि नभो रसोरूपमधानि गन्धस्पर्शश्च शब्दो मन इन्द्रियाणि गन्धर्वयक्षाः पितरो मनुष्या देवर्षयो देवगणाश्च सर्वे ब्रह्मेन्द्ररुद्रावसवोधसाध्यास्त्वत्प्रसूदा सचराचरश्च सृजस्य दो विश्वमनन्यबुद्धे रजो गुणात् समस्तमेतद तमोगुणात्संहरसे गुणेश नित्यो निरीहाखिलकर्मसाक्षी ब्रह्मोवाच तदोगमभ्रुवं देवं गणेशं तं शिवाज्ञया नाम चाकरवं तस्य यत्तच्छृणुमहामते त्वन्नाम बीजं प्रथमम् मादृकाणामोङ्काररूपं श्रुतिमूलभूतं यदो गणानां त्वमसीह ईशो गणेश इत्येवतवास्तु नाम ॐमित्यथोक्ते गणनाथकेन तुतोष सर्वः प्रददौ वरांश्च यः सर्वकार्येषु तवेश कुर्या स्मृति तदन्तं स लभेदविघ्नं विना स्मृतिं तेन लभे च कोऽपि वाञ्छ्यसिद्धिं कृमिकीडकोऽपि शैवेस्त्वदीयैरथवैष्णवैश्च शाक्तैश्च सौरे रथसर्वकार्ये शुभाशुभे वैदिकलौकिके वा त्वमर्चनीयप्रथमं प्रयत्नात् यन्मङ्गलं सर्वजनेषु देवसयक्षविद्याधरपन्नगेषु तस्येश्वरो मङ्गलमूर्तितां त्वं तदो यदो मङ्गलकृत्स्वभक्ते असम्पुरा नर्चयत्तस्तवेश्यत्वय्य स्मृदे दैत्यवरस्य युद्धे अवन्दना चापपराभवं तं तदस्तवाङ्घ्रिं शरणम् प्रपन्नः क्षमापराधं मम सर्वशक्ते जयं प्रयच्छा किलजन्यकाले ये सर्वथा त्वां न भजन्ति देवजडा दरिद्राः प्रभवन्तु तेऽपि भजन्ति देवक्रियुधा मनुष्या प्राप्स्यन्ति सिद्धिं निखिलार्थदात्रीं क उवाच इद्धं निशम्याखिलवाक्यसारम् वेता वेत्तावदद्वाक्यमिदं गिरीश्यं यदा यदा मे स्मरणं विदध्यास्तदान्तिकं तेखमियामि मे उ मन्नामबीजेन निमन्त्रयैकं बाणं दुतेनैव पुरत्रयं तद। निपातयास्मन्महसा महेश कृत्वा स दैत्यं खलु भस्मसात्वम् तदस्वनाम्नामवदत्सहस्रं गणाधिपोस्मै प्रणताय सम्यक् शिवाय भक््र्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम् उवाच चैनं रणकालयेदत्पठस्वदैत्यान्विनिहंसिशीघ्रं त्रिसन्ध्यमे दत्स्य जपान्नराणां सिद्ध्यन्ति कामा सकला अभीष्टाः श्रुत्वा द्विरदाननस्य तं पूज्य सम्यक् शिव उज्जहर्ष संस्थापयामासगणेशं प्रासादमुच्चैर्दृढमाशुचक्रे सन्तर्प्य देवान् मुनिसिद्धसङ्घान् दानानि दत्त्वा द्विजपुङ्गवेभ्यः पुनश्च सम्पूज्य नमश्चकार देवं गिरीशो वरदं गणेशम् उवाच सर्वान् मणिपूरीयं तु विख्यादिमागच्छतु सर्वलोके देवेन सर्वैश्च तधोदितैस्तैरन्तर्दधुस्ते गणनाथमुख्याः अन्तर्हिते मुनिगणे ससुरे गणेशे सर्वोऽप्यगात्स्वनिलयम् स्वगणैरुपेतः गन्धर्व यक्षनिवहैरमराङ्गनाभिर्वृत्तं निजं परमुदा गिरिजामुवाच श्रुत्वा तदा मृतवचः सकलं गिरीश्याद्देवेश्वरा मुमुदिरे मुनयः सदा योगीश्वराश्च निहतं त्रिपुरं स्वधिष्ण्य मामं सदाधिगदं गिरिशप्रसादात् इति श्रीगणेशपुराणे उपासनाखण्डे शिवस्य वरदानं नाम शोध्यायः ॐ